श्रीहरये नमः अत द्वादशोऽध्यायः श्रीभातरायणिरुवाचा वृषध्वजोनिशंयेधं योषिद्रूपेण धानवान् मोहयित्वा सुरगणान् हरिसोमम् अपाययत् वृषं मारुह्यगिरिश सर्वभूतगणैर्व्रतः सह देव्याय यत्रास्ते मधुसूदनः सभाजितो भगवता सादरं सोमया भवः सुभविष्ट उवाचे तं प्रतिभोज्यस्मयन् हरिं श्रीमहादेव उवाचा देवदेवजगत्वपिन् जगदीश जगन्मयात् सर्वेषामभिभावानां त्वमात्मा हेतुरीश्वरः आद्यन्तावस्य यन्मध्यम् इतम् अन्यदहं बहिः यतो नैतानी तत्सत्यं ब्रह्मचिद्भवान् तवैव चरणं भोजं श्रेयस्थामानिराशिषः विसृज्योभयतः भयतसंगं मुनयः त्वं ब्रह्मपूर्णम् अमृतं विगुणं विशोकं। आनन्दमात्रम् अविकारम् अनन्यत अन्यत। विश्वस्य हेतु उतयस्थिति संयमाना आत्मेश्वरश्च तदपेशतया न पेषः एकस्त्वमेव सदसद्वयमध्य च स्वर्णं कृतात् कृतमिवेकनवस्तु भेदः अज्ञानतस्त्वयि जनैर्विहितो विकल्पो यस्माद्गुणैर्व्यतिकरो निरुपाधिकस्य त्वां ब्रह्म केचित् अवयन्त्युत धर्ममेके एके के परं सदसतोः पुरुषं परेशम् अन्ये वयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्त्रं नाहं परायोर्ृषयो न मरीचिमुख्या जानन्ति यद्विरचितं कलु सत्त्वसर्गाः यन्माययामुषितचेतस मर्त्यादयः सत्वं शश्वतभद्रवृत्ताः सत्त्वं समीहितमतस्तिजन्मनाशं भूते हितं च जगतो भवभन्त च चराचराख्यं सर्वं तदात्महतया बगमो वरुंसे अवतारमया दृष्टारममाणस्य ते सोऽहं तद्द्रष्टुमिच्छामि यत्ते योषिद्वपोर्धृतं येन सम्मोहिता दैत्या पायिस्ताश्चामृतं सुराः तद्दितृष्व आयातः परं कौतूहलं हिनः श्रीशुक उवाच एवम् अभ्यर्धितो विष्णोः भगवान् शूलपाणिना प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत श्रीभगवानुवाच कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः पश्यता शुरकार्याणि गतेऽपि योषभाजने दर्शयिष्यामि दिदृक्षो सुरसत्तमा कामिनां बहुमन्तव्यम् सङ्कल्पप्रभवोदयम् श्रीशुकौ वाचा इति ब्रुवाणो भगवांस्तत्रैव अन्तरधीयत सर्वतश्चारण्यश्चक्षुर्भव आस्ते सहोमयां ततो ददर्शवुपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे विक्रीडतिं कन्दुकलीलयालसद्धुकूल पर्यस्तनिधम्बमेकलाम् आवर्तनोध्वर्दनकम्पितस्तन प्रकृष्टहारोरुभारैपदे पदे प्रभज्यमानां इवमद्यतश्चलत् पदप्रवाळं नयतिं ततस्ततः दिक्षु प्रमद् गन्तुकचापलैर्भृशं ब्रोद्विघ्न तारयतलोलोचनं स्वकर्णविभ्राजिदकुण्टलोल्लस कपोल लीलालकमण्डिताननां क्लदद्गुलं कभरीं च विच्युता सन्नह्यतिं वामकरेण वल्गुना विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्म मायया तां वीक्ष्य देव इति कटाक्षमुष्टः स्त्रीप्रेक्षेण प्रति समीक्षणं विक्बलात्मा वेद तस्या कराघ्रात्सतु यदा गतो विधूरं तमनोव्रजस्त्रियाः वासस्सूत्रं लघुमारुतो हर भवस्य देवस्य किला नु पश्यतः एवं दृष्ट्वा तस्यां मनश्चक्रे विषञ्झन्त्यां भव तयापहृतविज्ञान तत्कृतस्मरविह्वलः भवान् या अपि पश्यन्ता गतः क्रीस्तत्पदं ययो सा विवस्त्रा व्रीडिता भृशं निलीयमाना वृषेषो हसन्त्येनान्वतिष्ठत मन्वगच्छ भगवान् भवः प्रमुक्षितेन्द्रियः कामस्य च वसं नीथ करोणमिव यूतपः सोऽनुव्रजातिवेगेन गृहीत्वा निच्छतीं श्रियं केशभन्तवुपानीय भागुप्यां परिशस्वजे। सोभगूटा भगवता करीणा करिणीयत इतस्ततः प्रसर्पन्ति विप्रकीर्णशिरोरुः आत्मानं मोचयित्वाङ्घ सूरर्षभुजान्तरात् भ्राद्रवत्सा पृथ्वश्रुणि माया अद्भुतकर्मणः प्रत्यपद्यतकामिन वैरिणेव विनिर्जितः तस्यानुधावतो रेतश्च स्कन्धामोघरेतसः सश्मिना यूतपस्येव वासितामनुधावतः यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः तानि रूप्यस्य केम्नश्च क्षेत्राण्यासन्महीपते वनेषु पवनेषु च यत्र क्व सा चन्द्रुषयस्तत्र सन्निहितो हरः स्कन्तेरेतिसोपश्यत् आत्मानं देव मायया झटीकृतं नृपश्रेष्ठ कश्मलात् अतावगतमागात्म्य आत्मनो जगदात्मनः अपरिज्ञेयवीर्यस्य न मनेतदुहद्भुतम् तम् अविक्लवमव्रीढम् आलक्ष्य मधुसूदनः उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीन्तनम् श्रीभगवानुवाच दृष्ट्वा त्वं विबुधश्रेष्ठ स्वां यन्मे स्त्रीरूपया मोहितोऽभ्यङ्गमाययां को नु मेतितरेन्मायां विषक्तस्त्वद्धृते पुमान् तां स्तान् विसृजतिं सेयं गुणमयी माया न त्वामभिभविष्यते मया समेता कालेन कालरूपेण भागसः श्रीशुक एवं भगवता राजन् श्रीवत्साङ्ख्येन सत्कृतः आमन्त्रितं परिक्रम्य सगणस्वालयं ययौ आत्मां सभूतां तां मायां भवानी भवः संसदां ऋषिमुख्यानां प्रीत्या चष्टादभारत अपि व्यपश्यस्त्वम् अजस्य परस्य पुंसपरदेवतायाः अहं कलानां वृषभो विमुह्ये यया वसोऽन्ये किमुता स्वतन्त्राः यं यामपृच्छस्त्वमुपेत्य योगात् साक्षात् पुरुष पुराणो न बिसतेन वेदः श्रीशुक इतिते तेभिः तस्तात् विक्रमः सार्गधन्वनः सिन्धो निर्मथनेयेन दृत पृष्टे महाचलः नरिष्यते जातु समुद्यम क्वचित् यदुत्तमश्लोकगुणानुवर्णम् समस्तसंसारपरिश्रमापहम् असत विषयमघ्रिं भावगम्यं प्रपन्नान् अमृतम् अमरवर्यान् आसयत् सिन्धुमद्यं कपटयुवतिवेशा मोहयन् यः सुरारीन् तमहमुपसृतानां कामपूरं नतोऽस्मि इति श्रीमद्भागवते महापुराणे अष्टमस्कन्दे शङ्करमोहनं नाम द्वादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजके जय पुराणे अष्टमस्कन्दे शङ्करमोहनं नाम द्वादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथ महराजके जय